त्रिंशः सर्गः तदस्तमक्षोऽभ्यबलम् लङ्कायाम् नृपतेश्चराः सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् जातोद्वेगोऽभवत् किञ्चित् सचिवामिदमब्रवीत् मन्त्रिणः सर्वे वैषु अयम् नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः तस्य तच्छासनम् श्रुत्वा मन्त्रिणोऽभ्यागमम् द्रुतम् ततः स मन्त्रयामास राक्षसैः सचिवैः सह मन्त्रयित्वा तु दुर्धर्षः क्षमम् यत्तदनन्तरम् विसर्जयित्वा सचिवान् प्रविवेशः स्वमालयम् ततो महाबलम् मायाविनम् महामायम् प्राविशद्यत्र मैथिली विद्युज्जिह्वम् च मायाज्ञमब्रवीद्राक्षसाधिपः मोहयिष्यावहे सीताम् मायया जनकात्मजा शिरो मायामयम् गृह्य राघवस्य निशाचरा माम् त्वम् समुपतिष्ठस्व महच्च स शरम् धनुः एवमुक्तस्तथेत्याह विद्युज्जह्वो निशाचरः दर्शयामासताम् मायाम् सुप्रयुक्ताम् स रावणे तस्य तुष्टो भवद्राजा प्रददौच च विभूषणम् अशोकवलिकायाम् च सीता दर्शनलालसः नैररतानामधिपतिः संविवेशमहाबलः ततो दीनामदैन्यार्हाम् ददर्शधनदानुजः अधोमुखीम् शोकपरामुपविष्टाम् महीतले भर्तारम् समनुध्यान्तीमशोकवनिकाम् गताम् उपास्यमानाम् घोराभीराक्षसीभिरदूरतः उपसृत्य ततः सीताम् प्रहर्षम् नाम कीर्तयन् च वचनम् धृष्टमुवाच जनकात्मजाम् सान्त्यमाना मया भद्रे यमाश्रित्य विमन्यसे र सते भर्ता राघवः समरे ते सर्वथा मूलम् दर्पश्च निहतो मया मम भार्या भविष्यसि विसृजयिताम् मतिम् मूढे करिष्यसि भव स्वभद्रे सर्वासामीश्वरी मम अल्पपुण्ये निवृत्तार्थे मूढे पंडितमानिनी। शृणुभर्तृवधम् सीते घोरं वृत्रवधम् यथा समायातः समुद्रान्तम् हन्तुम् माम् किल राघवः वानरेन्द्र प्रणीतेन बले न महता समुद्रस्य पीड्यतीरमथोत्तरम् बले नमहता रामो व्रजत्यस्तम् दिवाकरे अथा ध्वनिपरिश्रान्तमर्धरात्रे बलम् सुखसुप्तम् समासाद्यचरितम् प्रथमं चरैः तत्प्रहस्तप्रणीतेन बलेन महता मम बलमस्य हतम् रात्रौ यत्र रामः स लक्ष्मणः पट्टिशान् परिघांश्चक्रा नृष्टीन् दण्डान् महायुधान् बाणजालानि शूलानि भास्वरान कूटमुद्गरान यष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च उद्यम्योद्यम्य रक्षाभिर्वानरेषु निपातिता अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना असक्तम् कृतहस्तेन शिरश्छिन्नम् महासिना विभीषणः समुत्पत्य दिशः प्रव्राजितः सैन्यैर्लक्ष्मणः सह सुग्रीवो ग्रीवयासीते भग्नया निरस्तः हनुकस्यीते हनूमान् जानुभ्या जाम्बबाणथ जानुभ्यामुत्पतन्निहतो युधि पट्टिषैर्बहुभिश्चिन्नो निकृत्तः पादपो यथा मैन्दश्च द्विविदश्चोभौ तौ वा नरवरर्षभौ निःश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ असिनाव्यायतौ मध्ये ह्यरिनिषूदनौ अनुश्वसिति मेदिन्याम् पनसः पनसो यथा नाराचैर्बहुभिश्चिन्नः शेते दर्याम् दरीमुखः कुमुदस्तु महा तेजनिष्कूजन् सायकैर्हतः अङ्गदो बहुभिश्चिन्नः शयानामृदितास्तत्र वायुवेगैरिवाम्बुदाः प्रसताश्च परेऽत्रस्ता हन्यमाना जघन्यतः अनुद्रुतास्तु रक्षाभिः सिंहैरिव महाद्विपाः पिङ्गलास्ते विरूपाक्षै राक्षसैर्वहवो हताः एवम् तव हतो भर्ता ससैन्यो मम सेनया क्षतजार्द्रम् रजोध्वस्तमिदम् चास्याहृतम् शिरः ततः परमदुर्धर्षो रावणो राक्षसेश्वरः सीतायामुपशृण्वत्याम् राक्षसीमिदमब्रवीत् राक्षसम् क्रूर कर्माणम् समानय येन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम् विद्युज्जिह्वस्तदागृह्य शिरस्तत्सशरासनम् प्रणामम् शिरसा कृत्वा रावणस्याग्रतस्थितः तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् अग्रतः कुरु सीतायाः शीघ्रम् दाशरथेः शिरः अवस्थाम् पश्चिमाम् भर्तुः कृपणा साधु पश्यतु एवमुक्तम् तु तद्रक्षः शिरस्तत्प्रियदर्शनम् उपनिक्षिप्य सीतायाः रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् त्रिषु इदं तत्तव रामस्य कार्मुकम् ज्यासमावृतम् इह प्रहस्तेनानीतम् तम् हत्वा निशिमानुषम् स विद्युज्जिह्ेन सहैव तच्छिरोधनुश्च भूमौ विनिकीर्यमाणः विदेहराजस्य सुताम् यशस्विनीम् ततोऽब्रवीत्ताम् भवमेव शानुगा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकांडे एक सर्ग